आकाशवाणी, श्रयता पुरुषोत्तम शर्मा आदेश मुख्यवाता बिहार विधानसभा निर्वाचनेभ्य प्रथम मतदानं अध्य अद कितर प्रारप्स्य कर्नाटक विधान परिषद आसनचत मतदनमती प्रधानमन्त्रिणा नरेन्द्रमोदिना देशवासिन भ्रष्टाचारम् अपाकर्त् भारतं द्रढयित् च अध्यर्थिता भारतामेरिकाभ्यां द्विपक्षीय मन्त्रिस्तरीयोपवेशने ऐतिहासिक मूलभूतादान प्रदान सहयोग सन्धि हस्ताक्षरै प्रमाणित आईपीएल क्रिकेट स्पर्धामालिकायां गतरात्रौ सनराइजर्स हैदराबाददलेन दिल्ली कैपिटल्स पराजितम् निर्तनम् बिहारविधानसभानिर्वाचनेभ्य प्रथमचरणे स्वतन्त्र निष्पक्षमतदानाय व्यापकसुरक्षोपाया विद्यन्ते प्रथमचरणात्मकं मतदानं अद्य प्रातः सप्तवादनात् सायं षड्वादनं यावत् भविष्यति अस्मिन् चरणे षोडश जनपदानां एकसप्तति निर्वाचनक्षेत्रष् मतदानामायोजयिष्यते चतुर्दशलक्षोत्तरद्विकोटिमतदातार षड्षष्ट्युत्तरैकशतं प्रत्याशिनां भाग्यस्य निर्णयं करिष्यन्ति चतुर्लक्षोत्तरशतं महिला अपि प्रत्याशिन्य सन्ति अपरत्र कर्णाटके अपि विधानपरिषद आसनचतुष्टयस्य कृते प्रात अष्टवादनात् सायं पञ्चवादनं यावत् मतदानं विधास्यते कोविड संक्रमणं निध्याय नैर्वाचनिककर्मिभ्य सुरक्षोपकरणानि प्रशासनेन सुलभायितानि मतदातार अपि सुरक्षापूर्वकं सामाजिक दूरतान्ग्णं मतदानाय निर्दिष्टान्त्र केन्द्रीयान्वेषणाभिकरणेन सतर्कता जागरूकता सप्ताहान्तर्गतं त्रिदिवसीयं राष्ट्रियं सतर्कता भ्रष्टाचारोन्मूलन सम्मेलनं गतदिने प्रारब्धम सम्मेलनस्य उद्घाटनावसरे प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् भ्रष्टाचारोन्मूलनं केवलं प्राशासनिकोत्तरदायित्वं नास्ति अपित् सामूहिकोत्तरदायित्वं विद्यते प्राशासनिकप्रक्रिया पारदर्शितायै विकासायै च उत्तरदायित्वपूर्णा भवितव्या प्रशासनं च भ्रष्टाचारोन्मूलननीतौ कार्यमाचरति भारतामेरिकयो रक्षाविदेशमन्त्रिणां तृतीये द्विपाक्षिकोपवेशने बीईसीए इति मूलभूतादान प्रदान सहयोग सन्धि उभाभ्यां हस्ताक्षरै प्रमाणित राष्ट्रियशिष्टमण्डलस्य नेतृत्वं रक्षामन्त्री राजनाथसिंह विदेशमन्त्री एस जयशंकरश्च भारतपक्षत कृतवन्तौ तत्रैव अमेरिकाया शिष्टमण्डलनेतृत्वं माइक पोम्पियो मार्क एस्पसरश्च कृतवन्तौ उपवेशनानन्तरं रक्षामन्त्री राजनाथ सिंह प्रत्यपादयत् यत् पक्षद्वयं अन्ताराष्ट्रियव्यवस्थान्ग्णं नियमान्पालनाय साहमत्यं प्रकटितवन्तौ भारते कोविड नवदश महामारीं पराजित्य द्विसप्तति लक्षाधिकजना आरोग्यं प्राप्तवन्त स्वास्थ्यलाभमिति समेध्य नवति दशमलव षड् द्वि प्रतिशन्मिता संजाता केन्द्रीय स्वास्थ्य सचिव राजेशभूषण प्रावोचत् यत् संक्रमितानां संख्यापि भारते अनवरतम अपचियते। इदानीं यावत् दशकोट्यधिक कोविड परीक्षणानि सम्पूर्णराष्ट्र संजातानि कोविड संक्रमणात् मृत्युमितौ अपि अपचितिः दृश्यते आईपीएल क्रिकेट स्पर्धा मालिकायां गतरात्रौ क्रीडिता स्पर्धा सनराइजर्स हैदराबाददलेन विजिता हैदराबाददलेन प्रथम क्रीडयता नवदशोत्तरद्विशतं धावनांकलक्ष्यं दिल्ली कैपिटल्स दलाय प्रदत्तम् लक्ष्यमनुसरता दिल्ली कैपिटल्सदलेन नवदश क्षेपचक्रेष् केवलं एकत्रिंशदुत्तरैकशतं एक धावनांका हा निर्मिता सन्ति श्रृंखलायाम् अद्य मुंबई इंडियन्स दलं रॉयल चैलेंजर्स सम्मुखी सम्मुखीकरिष्यति इति वार्ता